न कर्मणिनियुक्तः सन्धनम् किञ्चिदपि स्पृशेत् प्राप्नोति हि हरम् द्रव्यम् बन्धनम् यदि वावधम् यानम् वस्त्रमलङ्कारम् यच्चान्यत् सम्प्रयच्छति तदेव धारये नित्यमेवम् प्रियतरो भवेत् एवम् संयम्य चित्तानि यत्नतः पाण्डुनन्दनाः संवत्सरमिमम् ताता तथाशीला बुभूषत अथ स्वविषयम् प्राप्य यथाकामम् चरिष्यत युधिष्ठिरौ वाच अनुषिष्ठास्म भद्रम् तेनैतद्वक्तास्ति कुन्तीमृते मातरम् नो विदुरम् वा महामतिम् यदेवानन्तरम् कार्यम् तद्भवान् कर्तुमर्हति तारणायास्य दुःखस्याप्रस्थानाय जयाय च वैषम्पायन उवाच एवमुक्तस्ततो राज्ञा धूम्योऽथद्विजसत्तमः अकरोद्विधिवत्सर्वम् प्रस्थाने यद्विधीयते तेषाम् समिध्यतानग्नीन्मन्त्रवच्चजुहावसः समृद्धिवृद्धिलाभाय पृथिवी विजयाय च अग्नीन्प्रदक्षिणीकृत्या ब्राह्मणाश्च तबोधनान् याज्ञसे पुरस्कृत्या षढे वा तप्रव्रजुः वीरेषु दौम्योत जपदाम्बरः अग्निहोत्राण्युपादाय पाञ्चाला नभ्यगच्छत इन्दसेनादयश्चैवा यथोक्ताः प्राप्य यादवान् रथानश्वांश्च रक्षन्तः सुखमूषुसु संवृताः